श्रीमन्महाभारतम् आदिपर्वणि बकवधपर्वणि कुन्तीप्रश्ने एकोनषष्ट्यधिकशततमो अध्यायः कुन्त्युवाच कुतो मूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुं ब्राह्मण उवाच उपपन्नं सतामेतद्यद्ब्रवीषितपोधने न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् समीपेन गरस्यास्य भको वसति राक्षसः इतो गव्यूतिमात्रेऽस्ति यमुनागह्वरे गुहा तस्याम् घोरः स वसति जिघांसु पुरुषाधकः ईशो जनपदस्यास्य पुरस्य च महाबलः पुष्टो मानुषमांसेन दुर्बुद्धिपुरुषाधकः तेनेयम् पुरुषादेन भक्ष्यमाणा दुरात्मना अनाथानगरीनाथं नगरीनाथं त्रातारं नाधिगच्छति रक्षत्यसुररान्नित्यमिमं जनपदं बली नगरं चैव देशं रक्षो बलसमन्वितः तत्कृते परचक्राच्च भूतेभ्यश्च ननोभयं वेतनं तस्य विहितं शालिवाहस्य भोजनं महिषौ पुरुषश्चैको गच्छति एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम् सवारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः तद्विमोक्षाय ये केचिद् यतन्ति पुरुषाः क्वचित् तद्रक्षो भक्षयत्युत वेत्रकीयगृहे राजानायम् नयमिहा अनामयं च न